ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे षड्विंशोऽध्याय श्रोत उवाच ततोऽथ भूपते प्राहे तदनीं स्थित्वा ह्यधोमुख बाले। पापश्च पुरतो मम शिरस्ते चेदयिष्यामि हन्तुम् शक्नोति चेत् करः एवम् उक्त्वा समुद्यम्य कर्गम् हन्तुम् गतो नृपहे, न जानाति नृपः पत्नीम् सा न जानाति भूपतिम् अब्रवीद्भृशदुःखात् समृत्युमभिकाङ्क्षति त्रि उवाच चाण्डाल शृणु मे वाक्यम् किञ्चित् तं यदि मन्यसे मुतस्तिष्ठति मे पुत्रो नातिदूरे बहिः पुरात् तं दहामि हतं यावत् पश्चात् असि न घातयत् प्रेषिता बालकम् पति सा जगा माति दुःखाता विलपन्ति सुदारुणम् भार्या तस्य नरेन्द्रस्य सर्पदष्टं हिवारकम् हा पुत्रः भस्तशिशो इत्येवं वदति मुहुः कृशापि वर्णा मलिराय पासु मार्गत्य बालं स्थाप्य विशुद् राजन्न स्वभालं तम् पश्यसी हे महीतले रममाणम् स्वसखिभिः दष्टम् हिनामुतम् तस्याविलापशब्दम् तम् आकर्ण्यस्तु नराधिपये शवसन्निधिमागत्य वस्त्रम् मस्याक्षिपत्तराय तान्तं भार्याम् नाभिधानाति भूमिपहे चिरप्रवासन्तप्ताम् पुनर्जाताम् विवा बलाम् सापि तं चारुके शान्तम् पुरोद्धृष्ट्वा चारकम् नभ्यजाना नृपवरम् शिक्षवृक्षस्वचोपमम् भो नरेन्द्र लक्ष्योपेतम् अचिन्त यद् सो नृपः अस्य पूर्णेन्दुवद्वक्त्रम् शुभं मुन्द समध्वणम् दर्पण प्रतिभोक्तुङ्गयुगशोभितम् नीलान् केशान् कुञ्जितागरा कुञ्जितागरान् सान्द्रा दीर्घान् ना जीव सदृशे नेत्रे ओष्ठो बिम्बफलोपमौ विशाल रक्षा दीर्घाक्षौ दीर्घ बाहुन्नतांसकः विशालपादो गम्भीर सूक्ष्माङ्गोल्यवनीधरः प्रणालपादो गम्भीर नाभिरुद्धकन्धर अकष्टं नरेन्द्र कस्यापेश कुलेशिजुः सातो नैतैः तेन कालपाशा दुरात्मना श्रुतवाच एवं दृष्ट्वा सदम्बारम् मातुरङ्के प्रसारितम् कृतिमभ्यायगतो राजा हाहेत्य शून्यपातयत् सोप्यवाच चवत्सोमे, वत्सो मे दशामेतमेतामुपागतः नीतो यदि च घोरेण वशं तेनात्मनो वश विचारयित्वा राजासौ हरिश्चन्द्रस्तथा राज्ञी महादुःखौ एष धीरम्भाषत राज्ञ उवाच आवर्तकस्य पापस्य तपध्यानादिदम्भेत् दुःखम् आपतितं घोरम् मामपास्य तदूप मुनोपलक्षते हाथ राजम पुदुखिण कस्थीय केतु राजोत्यागौ बताय हरिशंद्र से कित तस्चय श्रोता राजनचुदरात दीता पुत्र गम पत्य बालक सुत ज्ञाता पात संसो मूर्चा माति जगामह शिज्ञावस्थागत मूर्छिता निपपाता निश्च साधरणीतले चेतनां प्राप्य राजेन्द्रौ राजपत्ने च दौशनं विलेपतु सुसन्तप्तौ शोकभारेण पीडितौ राजोवाच आवत्सुकुमारं ते वदनं कुञ्चितालकम् पश्यतौ मे मुखम् दीनम् ृदयं किं न वीर्यते तात ताते ते मधुरम् पुणम् त्रयमागतम् उपगोह्य गदा वक्ष्ये वत्स वस्त वत्से ते सौहृदाय कस्य जानो प्रणीतेन पिङ्गेन क्षितिरेणुनाय ममोत्तरेयम्भुत्सङ्गम् तथाङ्गम् बलमेष्यते न बालम् मनोहृदय नन्दन मया से पितृ मान् पित्रा विक्रेतो येन वस्तुत गतं राजं शेषम्भे सबन्धनव सबन्धवदनं भृत हीन दैवानुशंसेन घृष्टो मेतनयत्तन ब्राह्म ही दृष्टस्य पुत्रस्यानन्द पङ्कजम् न्न घोरेण विषेणाधिकृतोऽधुना एवम् उक्त्वा समादाय बालकम् बाष्पगद्गदः वैश्वि च निश्चेतु मूर्धया निपपातः तदर्थं पतितं दृष्ट्वा शैव चैवमचिन्तयत् अयं स पृषव्य स्वरेणैवोपरक्षते विद्वाजनम् जनामनश्चन्द्रो हरिश्चन्द्रो नैव संशयः तथा च नासिका तु जलपुष्पोपमाशुभय दन्ताश्च मुकुलप्रखः ख्यातर्केतेर्महात्मरः स्मशानमागतः कस्मात् यद्येवं स नरेश्वर विहाय पुत्र शोकन्त पश्यन्ते पतिदम्बतिं प्रवृत्ता विस्मिता दीना वटु पुत्रात् पीडिता वीक्षन्ति सा तदा पतन् मोक्षया धरणीतले प्राप्य चेतश्च शनकैः सा गज्यदमभाषत दिक्त्वा दैवय कुर्ण यम् अमरप्राखो नीतो राजापाकृताम् राजनाशम् श्रोत्यागम् बाल्याकानय विक्रयं प्रापयित्वापि ये नाद्ये चाण्डालोयं कुतो नृपहे नाद्य पश्यामि ते छात्रम् सिंहासनमथापि चामरव्यजने वापि ज सूर्व राज नो भ्रृत्यता प्रकल सोय संलग्ले गतिरतरे मृत निर्माल्य सूत्र लग्न के वसानयी वसा निष्पन्द सञ्चुष्के महाप्रचलमण्डिते बस्ताङ्गराध दी मज्जासङ्घट्टभीषणे गुरुधृगो मायुनाराते पुच्य क्षुद्रविहङ्गमे सिदा धूमायतपटे नीलिक्रोतदिगन्तरे गुणपास्वादन् सम्प्रकृष्ट निशाचरे चिरत्य मेध्ये राजेन्द्रः श्मशाने दुःखपीडितः एवम् संशिष्य कण्ठे राज्ञो नृपात्मज कष्टं शोक समाविष्ट विललापासय गिर राजन् स्वप्नोऽ सत्यम्बा यदेतन्मन्यते भवान् तत् कथ्यतां महाभागे मनोभैमुह्यते मम यदेतदेवं धर्मज्ञे नास्ति धर्मे सहायताय तथैव वा विप्रदेवादि पूजने सत्यपालने नास्ति धर्मकुतः सत्यं नाजवं ना न यत्र त्वं धर्मपरमः स्वराज्यदवरूपितः इति तस्य वच श्रुत्वा निष्वस्योष्णं च गद्गदः कथयामासन्वङ्ग्यै यथा प्राप्तः स्वपाकताम् रुदित्वा सा तु सुचरं निश्वस्योष्णं तु दुःखिताय स्वपुत्र मरणं भीरु यथा वस्तं वाक्यम् निपपात महीतले उत पुत्रं समानीय जीवय मतो प्रहे शैव्या गज दया गिराय <coughs> कुरुक्रे स्वामिन प्रेषं चैश्चेदयित्वा शिरोमवै स्वामी द्रोणते सद्य मासत्यो भवभूपते। वासत्यं तव राजेन्द्र परद्रोहस्तु वाचकम् एतदा करण राजा तु पपातः भुवि मूर्छितः क्षणेन चेतधां प्राप्य विरलापाति दुःखितः कथं प्रिये त्वया प्रोक्तं वचनं तुश्वरम् दशक्यं भवेद् तत्कर्म क्रियते कथम् पत्नी उवाच मया पूजिता गौरी दैवाभिप्राप्त सैव च भविष्यसि पते सम्मे यन्यस्मिन् जन्म निप्रभो श्रुत्वा राजा तदा वाक्यं निपत महीतले मृतस्य पुत्रस्य ददा चचुम्भदुःखितो दुःखितो मुखम् राजोवाच प्रिये न रोचते दीर्घम् कालम् क्लेशम् मयाशितुम् नात्मा यत्तु अहम् तन्वङ्गि पश्च मे मन्दभाग्यताम् चाण्डालेनान्न ज्ञातः प्रवेक्ष्ये ज्वलनम् यदि चाण्डालदासताम् यासि पुनरप्यन्यजन्मनि प्राप्य खेदं प्राप्स्यामि दारुणम् पम् प्राप्स्यामि सम्प्राप्य महारौरव रौरवे भग्नस्य दुःख जलधौ परं प्राणैर्वियोजनम् एकोऽपि बालको योऽयम् आसीद् वंशकर सुरः मम दैवानुयोगेन मृतो सोऽपि बलीयस कथं प्राणान् विभुञ्चामि पराह्यस्तोऽस्मि दुर्गतः तसापे दुःखबाहुल्यात् त्यक्षामि सुनितनुम् ते लोके नासीत् तद्दुःखम् नासी पत्रवने तथा वैतरण्यां कृतवत् यादृशं पुत्रविप्लवे विप्लवे सोऽहं सुतशरीरेण दीप्यमाने हुताशने निपतेशामि तन्वङ्गी क्षंतुना वक्तव्य किम लोचने मम वाक्यं चन्वंगी निबोध मनस अताथ गिप्रेस्म शुचिस्मते यदि दत्तम यदम गुरो यदि संगम संगोक मे निजपुत्रेण चेत् त्वया य लोके कृतस्य भविष्यति समीप्सितम् यन्मया हस्तदा किञ्चित् रहसि त्वाम् शुचि स्मिते अशेषमुक्तम् तत्सर्वम् क्षन्तव्यम् राजपत्नीति गर्वेण नावज्ञेयः समे द्विजः सर्वयत्नेन तोषः स्यात् स्वामी ज्ञि उवाच अप्यत्र राजसे निपतिशे हुताचरे दुःखभारा सह देव स यास्यामि वै त्वया त्वया सह मम श्रेयो गमनं न भवेत् स च नरकं त्वया भोक्ष्यामि मानदे श्रुत्वा राजा तोवाच एवं मस्तु पतिव्रते इति श्रीमद्देवी भागवते महापुराणेष्टादश सप्तमस्कन्द्रे हरिश्चन्द्र उपाख्याने राज्ञोताचनपुर्वे चोद्योगवर्णनं नाम षड् ध्यायः श्री जगदम्बिकायार्पणमस्तु